मार्कण्डेयपुराणम् अध्यायं टेन् जैमिनिरुवाच संशयं द्विजशार्दूलाप्रभृदममम पृच्छदः आविर्भावधिरो भावव भूतानां यत्र संस्थितौ कथं संजायदे जन्धु कथं वा सविवर्धते कथं वोदरमध्यस्तस्तिष्टस्त्यङ्गनिपीडितः निष्क्रान्तिमुदरात्प्राप्य कथं वा वृद्धिमृच्छति उत्क्रान्तिकाले च कथञ्चिद्भावेन वियुज्यते कृष्णो मृतस्तथास्नादि उभे सुकृतदुष्कृते कथं तेज तथा तस्य फलं सम्पादयन्त्युत कथं न जीर्यते तत्र पिण्डीकृत इवाशये स्त्रीकोष्ठे यत्र जीर्यन्ते भुक्तानि सुगुरूण्यपि भक्ष्याणि यत्र नो कथमल्पकः ये दन्मे ब्रूदसकलं सन्देहोक्तिविवर्जितं तदेतत्परमगुह्यं यत्र मुह्यन्ति जन्तवः पक्षिण ऊचुः प्रश्नभारोयमदुलस्त्वयास्मासु निवेशितः दुर्भाव्यः सर्वभूतानाम् भावा भावाभावसमाश्रितः तं शृणुष्व महाभाग यथा प्राहपितुः पुरा पुत्रः परमधर्मात्मा सुमधिर्नाम नामतः ब्राह्मणो भार्गवः कश्चित्सुतमाह महामतिः कृतोपनयनं शान्तम् सुमधिं जडरूपिणं वेदानधिष्वसुमदे यथानुक्रममाधितः गुरुशुश्रूषणे व्यग्रो भैक्षान्नकृतभोजनः ततो गार्हस्त्यमास्थाय चेष्ट्वा यज्ञाननुत्तमान् इष्टमुत्पादयापत्यमाश्रयेधा वनं ततः वनस्तश्च ततो वत्स परिभ्राट् निष्परिग्रहः एवमाप्स्यसि तद्ब्रह्म यत्र गत्वा न शोचसि पक्षिण ऊचुः इत्येवमुक्तो बहुशो जडत्वान्नाक किञ्चन पितापितं सुबहुशः प्राक्प्रीत्या पुनःपुनः इति पित्रा सुतस्नेहात् प्रलोभिमधुराक्षरं स चोद्यमानो बहुशः प्रहस्येदमथाब्रवीद् तादैतद्बहुशोऽभ्यस्तं यत् त्वयाद्योपदिश्यते सथैवन्यानि शास्त्रानि शिल्पानि विविधानि च जन्मनामयुधं साग्रं मम स्मृतिपथं गतं निर्वेदाः परितोषाश्चक्षयवृद्ध्युदये गदाः शत्रुमित्रकलत्राणां वियोगाः सङ्गमास्तथा मातरो विवधा दृष्टाः पितरो विवधास्तथा अनुभूतानि सौख्यानि दुःखानि च सहस्रशः बान्धवा बहवः प्राप्ताः पितरश्च पृथग्विधाः पिण्मोत्र पिच्छिले स्त्रीणां तथा कोष्ठे मयोषिदं पीडाश्च सुभृशं प्राप्ता रोगाणाञ्च सहस्रशः गर्भदुःखान्यनेकानि बालत्वे यौवने तथा पृथदायां तथा तानि सर्वाणि सम्स्मरे। ब्राह्मणक्षत्रियविशां शूद्राणाञ्चापि योनिषु पुनश्च पुशुकीटानां मृगाणामधपक्षिणां तथैव राजभृत्यानां राज्ञाञ्चाहवशालिनां समुत्पन्नोऽस्मि गेहेषु तथैव तव वेश्मनि भृत्यतां दासदाञ्चैव गदोस्मि बहुशो नृणां स्वामित्वमीश्वरत्वं च दरिद्रत्वं तथा गतः हदं मया हदश्चान्यैर्हदं मे खादितं तथा दत्तं ममान्यैरन्येभ्यो मया दत्तमनेकषाः पितृमातृसुहृद्भ्रातृकलत्रादिकृतेन च तुष्टो सकृत् तथा दैन्यमश्रुद्धौतानोगतः एवं संसारचक्रेस्मिन् भ्रमदात्तादसङ्कटे ज्ञानमेदन्मया प्राप्तं मोक्षसम्प्राप्तिकारकम् विज्ञादे यत्र कलापो विगुणो न सम्यक् प्रतिभाति मे तस्मादुत्पन्नबोधस्य वेधैक्यं मे प्रयोजनं गुरुविज्ञानतृप्तस्य निरीहस्य सदात्मनः षट् प्रकारक्रिया दुःखसुखहर्षरसैश्च यद् गुणैश्च वर्जितं ब्रह्म तत्प्राप्स्यामि परं पदं रसहर्षभयोद्वेगक्रोधामर्ष जरातुरां विज्ञातां स्वमृग्राहि शङ्खपाशशताकुलम् तस्माद् ध्यास्याम्यहं तादत्यक्त्वे मां दुःखसन्दधिं त्रयी धर्ममधर्माढ्यं किं पापफलसन्निभं पक्षिण ऊचुः तस्य तद्वचनं श्रुत्वा हर्षविस्मयगद्गदम् पिताप्राहमहाभागस्वसुधं हृष्टमानसः पितोवाच किमे दद्वदसेवत्स कुतस्ते ज्ञानसम्भवः केन ते जडदा पूर्वमिदानीं च किन्नु शापविकारोऽयं मुनिदेवकृतस्तव यत्ते ज्ञानं तिरोभूतमाविर्भावमुपागतं पुत्र उवाच शृणुतादयथावृत्तं ममेदं सुखदुःखदं यश्चाहमासमन्यस्मिन् जन्मन्यस्मत्परन्दुयत् अहमासं पुरा विप्रो न्यस्तात्मा परमात्मनि आत्मविद्याविचारेषु परां निष्ठामुपागतः सततं योगयुक्तस्य सतताभ्याससङ्गमाद् सत्संयोगात् स्वस्वभावाद् विचारविधिशोधनाद् तस्मिन्नेव पराप्रीधिर्ममासीद्युञ्चदः सदा आचार्यताञ्जसम्प्राप्तशिष्यसन्देहकृतमः ततःकालेन महदा ऐकान्तिकमुपागतः अज्ञानाकृष्टसद्भावो विपन्नश्च प्रमादतः उत्क्रान्तिकालादारभ्य स्मृतिलोपो नमे भवद् यावदब्धं गदं चैव जन्मनां स्मृतिमागतम् पूर्वाभ्यासेन तेनैव सोहं तादजितेन्द्रियः यदिष्यामि तथा कर्तुं न भविष्ये यथा पुनः ज्ञानदानफलं ह्येदद्यज्जातिस्मरणं मम न ह्येदत्प्राप्यदेतात त्रयी धर्माश्रितैर्नरैः सोऽहं पूर्वाश्रमादेव निष्ठाधर्ममुपाश्रितः एकान्तित्वमुपगम्य यदिष्याम्यात्ममोक्षणे तद्ब्रूहित्वमहाभाग महाभाग यत्ते संशयिकं हृदि ये तावतापि ते पक्षिन नृण्यमाप्नुयाम् पक्षिण ऊचुः पिता प्राह ततः पुत्रं यद्वयं वदा यद्वयं पृष्टा संसारग्रहणाश्रयम् पुत्र उवाच शृणुतादयथा तत्त्वमनुभूतं मया सकृत सकृतसंसारचक्रमजरं स्थितिर्यस्य न विद्यते सोऽहं वदामि ते सर्वं तवैवानुज्ञया पितः उत्क्रान्ति कालादारभ्य यथा नान्यो वदिष्यति उष्मां प्रकुपिधकाये तीव्रवायुसमीरितः भिनत्तिमर्मस्थानानि दीप्यमानो निरिन्धनः उदानो नाम पवनस्ततश्चोर्ध्वं प्रवर्तते भुक्तानामम्बुभक्ष्याणामधोगधिनिरोधकृत ततो येनाम्बुदानानि कृदान्यन्नरसास्तथा दत्ता स तस्य आह्लादमापदिप्रतिपद्यते अन्नानि येन दत्तानि श्रद्धाभूदेन चेदशा सोपि तृप्तिमवाप्नोति विनाप्यन्येन वै तदा येनानृतानि नोक्तानि प्रीतिभेदकृतो न च आस्तिकश्रद्धधानश्च ससुखं मृत्युमृच्छति देवब्राह्मणपूजायां शुक्लावदान्या ह्रीमन्तस्ते नरास् सुखमृत्यवः योऽकामान्नः संरम्भान्नद्वेषाद्धर्ममुत्सृजेद् यथोक्तकारी सौम्यश्च स सुखं मृत्युमृच्छति अवारिदायिनो दाहं क्षुधाञ्चानन्नदायिनः प्राप्नुवन्ति नराकाले तस्मिन् मृत्यावुपस्थिते शीतं जयन्तीन् धनतास्तापं चन्दनदायिनः प्राणाग्निं वेदनां कष्टाम् ये चानुद्वेगकारिणः मोहाज्ञानप्रदातारः प्राप्नुवन्ति महद्भयम् वेदनाभिरुदग्राभिः प्रपीड्यन्ते धमानराः कूडसाक्षी मृषावादी यश्चा सदनुशास्ति वै ते मोहमृत्यवः सर्वे तथा वेदविनिन्दकाः विभीषणाः पुदिगन्धा कूढमुद्गरपानयः आगच्छन्ति दुरात्मानो यमस्य पुरुषास्तदा प्राप्तेषु दृक्पथं तेषु जायते तस्य वेपधुः प्रान्दत्यविरतं शोध भ्रातृमातृसुतानथ सास्य विभाव्यते। दृष्टिश्च भ्राम्यदेत्राः साच्छ्वासाुष्यत्यधाननं ऊर्ध्वश्वासान्वितः सोऽथ दृष्टिभङ्गसमन्वितः ततः स वेदनाविष्टस्तच्छरीरं विमुञ्चति देहमन्यत्प्रपद्यते तत्कर्मजं यादनार्थं न मातृपितृसम्भवं तत्प्रमाणवयोऽवस्था संस्थानैः प्राग्भवं यथा तदोदूतो यमस्याशु पाशैर्बध्नादिदारुणैः दण्डप्रहारसम्भ्रान्तं कर्षदे दक्षिणां दिशं कुशकण्टकवल्मीकशङ्कुपाषाणकर्कशे तथा प्रदीप्तज्वलने क्वचिच्छ्रुभ्रशदोत्कटे प्रदीप्तादित्यतप्ते च दह्यमाने तदंशुभिः कृष्यदे यमदूतैश्च शिवसन्नादभीषणैः विकृष्यमाणस्तैर्घोरैर्भक्ष्यमाणशिवाशदैः प्रयातिदारुणे मार्गे पापकर्मा यमक्षयं चत्रोपानप्रदातारो येजवस्त्रप्रदानराः ये यान्तिमनुजा मार्गं तं सुखेन तथान्नदाः एवं क्लेशाननुभवन्नवशः पापपीडितः नियदे द्वादशाहेन धर्मराजपुरं नरः कलेवरे दह्यमाने महान्तं दाहमृच्छति ताड्यमाने तथैवार्तिच्छिद्यमाने च दारुणाम् क्लुद्यमाने चिरतरं जन्तुर्दुःखमवाप्नुते स्वेन कर्मविपाकेन देहान्तरगतोऽपि यत्र यद्वान्धवास्तोऽयं प्रयच्छन्ति तिलैः यच्च पिण्डं प्रयच्छन्ति नियमानस्तदश्नुते तैलाभ्यङ्गो बान्धवानामङ्गसं वाहनञ्जयद तेन चाप्याय्यते जन्तुर्यच्चाश्नन्ति सबान्धवाः भूमौ स्वपद्भिर्नात्यन्तं क्लेशमाप्नोति बान्धवैः दानं ददद्भिश्च तथा जन्तुराप्याय्यते मृतः नियमानस्वकं गेहं द्वादशाखं स पश्यति उपभुङ्गे तथा दत्तं तोयपिण्डादिकं भुवि द्वादशाखात्परं खोरमायसं भीषणाकृतिं याम्यं पश्यत्यधो जन्धुः कृष्यमाणः पुरं तदः गदमात्रोदिरक्ताक्षं भिन्नाञ्चनचयप्रभं मृत्युकालान्तकादीनां मध्ये पश्यदि दंष्ट्राकरालवदनं भृगुडीदारुणाकृतिं विरूपैर्घोषणैर्वक्त्रैर्वृतं व्याधिशदैः प्रभुं दण्डासक्तं महाबाहुं पाशहस्तं सुभैरवं तन्निर्धिष्ठां तदोयादिगदिं चन्दुशुभाशुभम् रौरवेकुडसाक्षी तु यादि यश्चानृतो नरः तस्य स्वरूपं गदतो रौरवस्य निशामययोजनानां सहस्रे द्वे रौरवो हि प्रमाणदः जानुमात्रप्रमाणश्च तदश्वभ्रः सुदुस्तरः तत्राङ्गारचयोपेतं कृतं च धरणी जाज्वल्यमानस्तिव्रेण तापि तन्मध्ये पापकर्माणं विमुञ्चन्ति यमानुगाः स दह्यमानस्तिव्रेण वह्निना तत्र पदे पदे च पादोऽ शीर्यते जीर्यते पुनः अहोरात्रेणोद्धरणं पादन्यासं च गच्छति एवं सहस्रमुत्तीर्णो योजनानां विमुच्यते तदोऽन्यं पापशुद्ध्यर्थं तादृं निरयमृच्छति ततः सर्वेषु निस्तीर्णः पापी तिर्यक्त्वमश्नुते कृमिकीडपदङ्गेषु श्वापदे मशकादिषु गत्वा गजद्रुमाद्येषु गोष्वश्वेषु तथैव च अन्यासु चैव पापासु दुःखदासु च योनिषु मानुषम्प्राप्य कुब्जो वा कुत्सितो वा मनोऽपि वा चण्डालपुक्कसाध्यासु नरो योनिषु जायते अवशिष्टेन पापेन पुण्येन च समन्वितः ततश्चारो हणिं जातिं शूद्रवैश्यनृपाधिकाम् विप्र विप्रदेन्द्रता चापी कदाचिदी वापकर्माणे नरकेशुन्ध यहा पुण्य तमेंकतशृणुयेन विर्दिष्टिपुण गतिम न प्रगीतगन्धर्वगणाः प्रवृत्ताप्सरसाङ्गणाः हा। हारनूपुरमाधुर्यशोभितान्युत्तमानि च प्रयान्त्याशुविमानानि नानादिव्यस्त्रगुज्ज्वलाः तस्माच्च प्रच्युता राज्ञा मन्येषां च महात्मनाम् जायन्ते च कुले तत्र सद्वृत्तपरिपालकाः भोगान् सम्प्राप्नुवन्त्युग्रांस्ततो यान्त्यूर्ध्वमन्यथा अवरोहणीं च सम्प्राप्य पूर्ववद्यान्तिमानवाः ये तत्ते सर्वमाख्यादम् यथा य जंुर्प्य अथ शृणु विप्रर्शे यहाँ प्रपद्यी मकंडेयपुराणे पिता पुत्र संवाद नाम दशम संचारवलि ओ